श्रीहरे नमः अथ द्वादशोऽध्यायः श्रीभगवानुवाच न रोदयति मां योगो न साङ्ख्यं धर्म पस्त्याघो निष्ठापूर्तं न दक्षिणा व्रतानि यज्ञश्चान्दां से तीर्थानि नियमायमाः यथा वरुन्दे सत्सङ्गसङ्गापहो हि मां सत्सङ्गेन दैतेयादुतानाम्रका या, गः गन्धर्वाप्सरसो नागा सिद्धाश्चारणगुह्यकाः विद्याधरा मनुष्येषु वैश्याशूद्रा स्त्रियोऽन्त्यजाः रजस्तमः परकृतयस्तस्मिन् तस्मिन् युगे न भगवो मत्पदं प्राप्ता स्वाष्ट्रकायाधवादयः वृषपर्वा बलिबाणो मयश्चातविभीषणः सुग्रीवो हनुमान् रुक्षो गजोघृतो वणिक्पतः व्याधकुब्जा व्रजे गोप्यो तेनादीतश्रुतिकणा नोपासितमहत्तमाः अव्रतातप्तपसः सत्सङ्गात्माबुपागताः केवलेन हि भावेन गोप्यो गावो न गामृगाः ये अन्ये मोढधियो नाग सिद्धा यं न योगेन साङ्ख्येन धानव्रततपोध्वरैः व्याख्या स्वात्यायसन्त्यासे प्राप्नुयात् यत् रामेण सार्धं मतुरां प्रणीते स्वापल्किना मये अनुरक्तचेत्ताः विघाटभावेन न मे वियोग तीव्रातयोऽन्यं धतृषोः सुखाय तास्ताक्षपाप्रेष्ठतमेन नीता मयैव बृन्तावनगोचरेण क्षणार्धवत्ता पुनरङ्गता सा ही नामया कल्पसमबभूभुः तानावितन्मय्यनुषङ्गभत्त धियः नित्यप्रविष्टा इव नाम रूपे मत्कामा रमणं जारमस्वरूप वितो बलाह ब्रह्म मां परमम् प्रापो सङ्गाचतसहस्रसः तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनं प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च मामेकमेव शरणम् आत्मानं सर्वदेहिनां या हि सर्वात्मभावेन मया श्याख्यकुतो भयः उद्धवो वाच संशयक्षृण्वतो वाचं तव योगेश्वरेश्वरः न आत्मस्थो येन भ्राम्यति मे मनः श्रीभगवानुवाच स एष जीवो विवरप्रसूतिः प्राणेन गोषेण गुकां प्रविष्टः मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्तविष्टः यथा न निलभन्तु रुष्मा बलेन धारुणि यदि मध्यमानः अणु प्रजातोकविषा समद्यते तथैव मे व्यक्तिरियं शिवाणी एवं गतिकर्म गतिर्विसर्गो घ्राणो रसो दृक्स्पर्श्रुतिश्च सङ्कल्पविज्ञानमताभिमान श्रोत्रं रजः सत्त्वतमो विकारः अयं हि जीवस्त्रिवृद्धब्जनोनि अव्यक्तये को वयसा स आद्यः विश्लिष्टशक्तिर्बहुदेव भाति बीचानि योनिं प्रतिपद्य यद्वद् यस्मिन्निदं प्रोतमशेषमूतं पठो यथा यये च संसारतरुः कर्मात्मक पुष्पपले प्रसूते द्वे अस्य बीजे सतमूलस्त्रिनाल पञ्चस्कन्तपञ्चरसप्रसूधिः दशैकशाको द्विषु पर्णनीड श्रीवल्कलो द्विफलोऽर्कप्रविष्टः अदन्ति चैकम्पलमस्य गृद्रा ग्रामे चरायेकमरण्यवासाः हंसाय यैकम्बुरोभमेजैर् मायामयं वेद सवेदवेदम् एवं गुरुपासनयैकभक्त्या विद्याकुटारेण सितेन धीरः विभ्रुश्च जीवसयमप्रमत् सम्पद्य त्यजास्त्रम् इति श्रीमद्भागवते महापुराणे एकादशस्कन्ते द्वादशोऽध्यायाः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमगराजके जय